श्रीमद्भागवत् महापुराणम् एकादशस्कन्ध नवमोऽध्यायः यथोर्णनाभिर्हृयादुर्णं शन्त्यन्तवक्त्रतः तया बृहृत्य भूयस्ताम् पृसत्येवं महेश्वरः यत्र धिया स्नेहाद्वेषाद्भयाद्वापि याति तद् कीटापे संस्कृतम् ध्यायन् कुड्यां तेन प्रवेशितः याति तत् स्वात्मतां राजन् पूर्वरूपमसन्त्यजन् एवं गुरुभ्य एतेभ्य एषा मे शिक्षिता मतिः स्वात्मोपशिक्षिताम् बुद्धिं देहो गुरुर्मम् विरक्तिविवेकहेतुर् बिभ्रत सत्वनिधनं सत्त्वनिधनं सततात्युदर्कम् तत्त्वाञ्जलेन विमशामि यथा तथापि तारक्यमेत्य वसितो विचराम्य सङ्गत्मजार्थपशुमेभृत्य गृहाप्तवर्गान् पृश्नाति यत्प्रियचिकीर्षुतया वितन्वन् स्वान्ते सकृच्छमवरोद्धमधन सृष्वासबीजमवशीदति वृक्षधर्मा जिह्वै कतोमुपं मुकुं मुपं मुमपकर्षति कर्हितर्षा शृष्णोऽन्यतस्तद्गुदरं श्रवणं कृतश्चे घ्राणोऽन्यतश्च पलकृन् च कर्म शक्ति बहवः सपत्नयो गेहपतिं स्थित्वा पुराणि विविधान्यजयात्मशक्त्या वृक्षान् सरि सिपशुन् खगदं शमस्त्यान् तैस्तैरतुष्टहृदय पुरुषम् विधाय ब्रह्मावलोकधिषुनम् मुदमापदेव लब्धासु दुर्लभमिदम् द्वौ सम्भवान् ते मानुष्यमर्थमन्येत्यमपि ह्यधीर तुलनं यतेत न पदेवं दनुमृत्यु यावन् निशेयशाय विषयः खलु सर्वतः स्यात् एवं सञ्जातवैराग्यो विज्ञानालोक आत्मने विचरामि महीमेतां मुक्तसङ्गो नहङ्कृतिं न हि कस्मान् गुरोर्ज्ञानं सुस्थिरं शासपुष्कलम् ब्रह्मैतद्वितीयं वै गीयते बहुधर्षिभिः श्रीभगवानुवाच इत्युक्त्वा स यदुं विप्रतमामन्त्रगभीरधे द्वन्द्वितोऽभ्यर्थितो राज्ञा योऽपेतो यथागतम् अवधूतव च श्रुत्वा पूर्वेषां न श पूर्वजः सर्वसङ्गनिर्मुक्तसमुचित्तो बभूवः ये श्रीमद्भागवते महापुराणे पारभंशा शयतायांकादश स्कंधे नवध्याय